अत तैत्र्य आरण्यः षष्टमप्रश्नप्रारम्भः ओ सन्तासन्ताजुषा प्रजामायोर्धनम् च ओम् शान्ति दिःशान्ति दिःशान्तिः परे युवागुम्सम्प्रवतो महीर बहुभ्यः पन्थामनपस्पशानम् ैवस्वतगुम् सङ्गमनम् जनानाञयमगुम् राजानगुम् हविषादुपस्यदा इदम् त्वा वस्त्रम् प्रथमन्वा गन्नपैतदूहदिहा विभः पुरा इष्टापोत्तमनुसम्पश्य दक्षिणाम् यथा ते यमस्य सादनगुम् सुकृतान् चापि गच्छता पुरुषात्वे तस्यावयतु प्रविद्वाननष्टपशुर्भुवनस्य गोपाः सत्त्वैतेभ्यः परिददात्वितिभ्योऽज्ञर्देवेभ्यः सुभिदत्त्रेभ्यः पुरुषे मा आशा अनुवेदसनुवासो अस्माकम् अभयतमेन नेषते स्वस्थिता अग्रणिः सर्ववीरो प्रयुच्छन् आयुर्विश्वायुः परिपासदि त्वापुरुषात्वा पातु प्रपथे पुरस्तात् यत्रासते सुकृतो यत्र ते यजुस्तत्रत्वादेवः भुवनस्य पत इदम् हविः अग्नगेव स्वाहा पुरुषस्य स या वल्ल्यपे यथा नो अत्र नापरः पुरा पुरुषस्य सजावतिमितेः प्राणमसि स्रसम् शरीरेण महीमिः स्वधयेः पितृनृपप्रजजास्मानिहावः मैवम् मा दुस्ताप्रियेऽहम् देवी सती पितृलोकैव देशे विश्ववारा नभसा संयन्त्युभौनो लोकोपयसाभ्या वृत्स्वा यन्नादेपतिलोकम् वृणानानिपद्यत उपत्वा मर्त्यप्रेतम् विश्वम् पुराणमनुपालयन्ति तस्यै प्रजान्द्रविणम् चेहेः उदेश्वनार्यभिजीवलोकमिता सुमेतमुपशेषयेहि हस्तग्राभस्य निधिषोऽस्त्वमेतत्पद्युर्जनित्वमभिसम्बभूव सुवर्णकुम् हस्तादा ददानामृतस्य श्रियै ब्रह्मणे तेजसे बलाय अत्रैव त्वमिह भयगुं धनुर्हस्तादा ददानामृतस्य श्रियै क्षत्रायुजसे बलाय अत्रैव त्वमिह भजगुम् सृषे वा विश्वास्पृधो अभिमातेऽर्जयेम मणिगुन्हस्तादा ददानामृतस्य श्रियै विषयपुष्ट्यै बलाय अत्रैव त्वमिह भजगुम् सृषे वा विश्वास्पृधो अभिमातेर्जयेम इममग्ने चमसंवाविजेश्वरः प्रियो देवानामृतसोम्याना एष इष्टमसो देवपानन्तस्मिन् देवामृतामादयन्ताम् अग्नेर्वर्म परिगोभिर्वयस्व सम्प्रोर्नुष्वमेधसा पीवसा च नेत्वाधिष्णुर्हरसा जनहृजानो दधद्विधक्ष्यन् पर्यम् खयातै श्रुतम् यदा करसि जातवेदोऽथे मेनम् परिदत्तात् पितृभ्यः यदा गच्छात्यसुमेतिमेतामथा देवानाम् वशनैर्भवाति चूर्यन्ते दे चक्षुर्गच्छतु वा तमात्माद्याम् च गच्छ पृथिवीम् च धर्मणा अपो वा गच्छयदि तत्र हितमोषधेषु प्रतिधिष्ठा शरीरैः अजोभागस्तपसा तन्तपः सुरन्देशोचिस्तपरुतन्ते अर्चिः यास्ते शिवास्तनुभोजातवेदस्ताभिर्महेमगुम् सुकृतान्यत्र लोकाः अयम् वै त्वमस्मादधित्वमेतदयम् वैतदस्य योनिरसि वैश्वानरः पुत्रः पित्रे लोकगुर्जातवेदो महेमगुम् सुहृतान्यत्र लोकाः य एतस्य पथो गोप्तारस्तेभ्यः स्वाहाय एतस्य पथो रक्षितारस्तेभ्यः स्वाहाय एतस्य पथोऽभिरक्षितारस्तेभ्यः स्वाहा क्षात्रे स्वाहापाक्षात्रे स्वाहाभिलालपते स्वाहा पलालपते स्वाहाग्नगे कर्म कृते स्वाहायमत्रणाधीमस्तस्मै स्वाहा यस्तयुध्मञ्जभरत् सुष्विदानो मूर्धानम् वा ते त्वाय निरो विश्वस्मात्सीमघागत उरुष्यः अस्मा त्वमधिजातोऽसि त्वदयम् जायताम् पुनः अग्नयेवैश्वानराय सुवर्गाय दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषोमवर्धा इदलन्तयेकम् पर ऊदयेकम् तृतीयेन ज्योतिषासम्विशस्व संवेशनस्तनुवै चारुरेधिप्रियो देवानां परमे सधस्थे नाके सुपर्णमुभयत्पदन्तकुम् हृदा वेनन्तो अभ्यचक्षतत्वा हिरण्यपक्षम् वरुणस्य दोतम् यमस्य यौनम् शकुनम् भुरण्यम् अतिद्रवसारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा अथापितरं सुविदत्रागुम् अपी हि यमे न ये स धमादम् वदन्ति यौ चतुरक्षौ पथिरक्षी नृचक्षसा ताभ्यागुम् राजन् परिदेह्येनज्ञस्वस्ति चास्मानमेव पञ्चधेः पूरणसावसुतृपाबुलम् बलौ यमस्य धूतौ च रतो वशानुम् अनु तावस्मभ्यम् त्रिशये सौर्याय पुनर्दत्तावसुमादेह भद्राम् सोमलेकेभ्यः पवते घृतमेक उपासते येभ्यो मधुप्रधावति ता ये युध्यन्ते प्रधने शुशूरासो ये तनुत्यजः देवासहस्रदक्षिणास्ता गिष्टिदेवापि गच्छता दे। तपसाय अनाधिष्यास्तपसाये सुवर्गताः तपो ये चक्रिगे महत्ता गिष्टिदेवापि गच्छतात् अस्मन्वदेरेवतेः सकुं प्रभद्धमुत्तिष्ठत प्रतरता सखायः अत्राजः मये असन्नशे वा शिवानिभयमभिपाजानुत्तरेम यद्वै देवस्य सविदः पवित्रकम् सहस्रधारम् विततमन्तरिक्षे येना पुनादिन्द्रमना मागुं तेनाहम् मागुम् सर्वतनुम् मुनामि या राष्ट्रात्पन्नादभयम् नृपतिमिच्छमानाः धातुस्ताः सर्वाः पवनेन पूताः प्रजयास्मान्द्रय्यावर्चसा सगुंसजाथ उद्भयन्तमसस्परिपश्यन्तो ज्योतिरुत्तरम् देवम् देवत्रासूर्यमगन्म ज्योतिरुत्तमम् धाता पुनातु सविता पुनातु अग्नेस्तेजसा सूर्यस्य वर्चसा यन्ते अग्निममममन्थामवृषभायेवपक्तवे इमन्तगुम् शमयामसि क्षीरेण चोदकेन च यन्त्वमग्ने समदहस्तमनिर्वापया पुनः क्याम्बोरत्र जायताम्बाकदूर्वाप्यल्कषा शीतिके शीतिकावति ह्लादुके ह्लादुकावति मण्डोक्यासु सङ्गमये मद्यस्वप्निगुं शमय शन्ते धन्वन्याः वर्षमुखे सन्त्वनोक्याः सन्ते समुद्रिजाः पश्यमुते सन्तु पश्याः सन्ते स्रवन्तेऽस्त्वनुपश्यमुते सन्तु कोऽप्याः सन्ते निहारो वरुष तु समुपृष्वावशीयताम् अवसृज पुनरग्ने दृभ्यो यस्ताहुतश्चरति स्वधाभिः आजुर्वसान उपजातु शेषकुम् सङ्गच्छताम् तनुवाजातवेदः सङ्गच्छस्व विगुभिः सर्गस्वधाभिः स्वमिष्टा मूर्तेन परमेव्योमन्य यत्र भूम्यै वृहसे तत्र गच्छ तत्र त्वा देवः यत्ते कृष्णस्य कुण आतुतोदपि पीनः सर्त्व उत भाश्वापदः अग्निष्टद्विश्वादनृणम् कृणोद सोमश्च योब्राह्मणमाविवेश उत्तिष्ठातस्तनुभुम्सम्भरस्वमेह गात्रमवहामा शरीरम् यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवस्य पिता परमे सधस्थे उत्तिष्ठ प्रेहिप्रद्रवौकः कृणुष्व परमे व्योमन् यमेन त्वय्यम्यासंविधानोत्तमन्नाकमधिरोहेमम् अस्मन्वधीरेव तेर्यद्वै देवस्य सविदुः पवित्रय्या राष्ट्रात्पन्नादुद्वयम् तमसस्परिधाता पुनाद अस्त्रात्वमधिघातोस्य यम् तदधिजायताम् अग्नयैवै स्वाधराय सुवर्गाय लोकाय स्वाहा आयातु देवः स्वमनाभिरोतुभिर्यमोहमेह प्रयताभिरक्ता आसीदतागुंसप्रजतेह बर्हिष्योर्जाय जात्यै जा जा मम शत्रुभत्यै यमे यजतमाने यदैतम् प्रवाहम्भरन्मानुषादे वयन्तः आसीदत स्वमलोकम् विधाने स्वासस्थे भवतमिन्देनः यमायसोमगुंसुनुत यमायजुहुताहविः यमगुम्ह यज्ञा गच्छत्यग्निदूतो अलङ्कृतः यमाय हृतवद्धविर्जुहोत प्रचतिष्ठत स नो देवेष्वायमद्दीर्घमायुःप्रजीवसे यमाय मधुमत्तमधुम् राज्ञे हव्यम् जुहोतन इदन्नमर्षिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः योऽस्य गोष्ठ्यजगतः पार्थिवस्यैक इद्वशे यमम् भङ्गश्रवो गाययो राजानपरोद्भ्यः यमङ्गाय भङ्गश्रवो यो राजानपरोद्भ्यः ये नापो नद्यो धन्वान् येनोः पृथिवी दृढा हिरण्यकक्ष्यान् स्रुधुरान् हिरण्याक्षानयश्रफान् अश्वाननश्च बोधान यमो राजाभितिष्ठते यमादाधारपृथिवी यमा विश्वमिदम् जगत् यमायसर्वमित्रस्थेज प्राणद्वाजरक्षितम् यथा पञ्च यथा षड्यथा पञ्चदशर्षयः यमञ्योऽविद्यात्सब्रूयाद्यथैकर्षिर्विजानते त्रिकद्रुकेभिः पतति षडुर्वीरे कमिबृहत् गायत्रे त्रिष्पन्दा कंसि सर्वाता यम आहिता अहरहर्नयमानो नयमानो पुरुषम् पुरुषं वैवस्पदो न तृप्यति पञ्चभिर्मानवैर्यमः वैवस्पदे विलिच्यन्ते यमे राजनि ते, जन ते जनाः ये चेह सत्येनेच्छन्ते य उचा नृतवादिनः ते, ते राजन्ह विलिच्यन्ते छायन्ति त्वामुपा देवादिश्च येनमस्यन्ति ब्राह्मणादिश्चापचित्यति यस्मिन् वृक्षे सुपनाशे देवैः सम्पिबते जमः अत्रा नो विष्पतिः पिता पुराणा अनुवेनति वैश्वानरे हविनिरञ्जुहोमि साहस्रमुत्सगम् शतधारमेतम् तस्मिन्नेष पितरम् पितामहम् प्रपितामहम् विभरत् पिन्बमाने द्रक्सश्च स्कन्दपृथिवीमनुद्यामिमञ्जयो निमनुजश्च पूर्वः त्रितेयञ्जोनिमनुसञ्चरन्तः सञ्जुहोऽनुसप्तहोत्रा आह इमगुंसमुद्रगुंसतधारमुत्संयक्ष्यमानम् भुवनस्य मध्ये भृदन् दुहानामदितिञ्जनायाग्ने बाहिगुंसेः परमे व्योमम् अपेथवितविच सर्पतातो ये त्रस्थपुराणाय च नूतनाः अहोभिरद्भिरक्तुभिर्व्यक्तम् यमो ददात्ववसानमस्मै सविते तानि शरीराणि पृथिव्यै मातुरुपस्थादधे तेभिर्युज्यन्दामघ्रियाः शृणम्बाहाः शृणङ्गाराः शृणम् कृशदुराङ्गलम् शृणम्बरत्रा बध्यन्दागुम् शृणमष्ट्रामुदिङ्गय शृणासीरा शुनमस्मासु धत्तम् शृणासीरा विमाम् वाचिन्यद्दिविचक्रथः पयः तेनेमामुपसिञ्चतम् सीते वन्दामहे त्वार्वाचि सुभगे भव यथा नः सुभगाससि यथा नः सुफलाससि सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे तेऽभिरदिते शम्भा विमुच्यध्वमग्निजादेवजाना अतारिष्मतमसस्पारमस्य ज्योतिरापामसुवरगम्म प्रवाता वान्ति पतयन्ति विद्युदकुदोषधेऽर्जिहते पिम्बते सुवः यरा विश्वस्मि भुवनाय जायते यत्पर्जन्यः पृथिवी गुम्रेतसा वति यथायमाय हार्म्यमापन्पञ्च मानवाः एवम् वपामि हार्म्यम् यथा सामजीवलोके भूरयः चितस्थपरिचित ओर्ध्वचितश्रयध्वम् इतरो देवताः प्रजापतिर्वः सादयतु तया देवतया उत्तेतभ्रामि पृथिवीम् त्वत्परेमम् लोकन्यदधन्मोऽहगम् वृषम् एताविस्थूणाम् पितरोधारयन्तु तेऽत्रायमः साधनात् ते मिनात् उपसर्पमातरम् भूमिमेतामुव्यच सं निीपुंसि सेवाम् वर्णम् मृदायुमतिर्दक्षिणावत्येषा उत्स्वञ्चस्व पृथिवीमा विबाधिताः सोपायनास्मे भव सोपवञ्चना माता पुत्रम् यथा सिताभ्येनम् भूमि वृण उष्मञ्चमाना यलवत्सा ऊर्जमस्मै दुहानाविश्वाः सन्त्वनपस्फुरन्तीः येषा ते यमसादने स्वधा निधीयते गृहे अक्षितिर्नामते असो इदम् जितेभ्यः प्रभरेम बर्हिर्देवेभ्यो जीवन्त उत्तरम् भरेम तद्वमारोहासोमेभ्यो भवञ्जयमेन व्यासंविधानः मात्वा वृक्षो सम्बाधिष्ठाम् मा माता पृथिवीत्वाम् गच्छास्येधा संयमराज्ये मात्वा वृक्षो सम्बाधेधाम् माता पृथिवीमहि वैवस्वतगृम्ह्य गच्छासि यमराज्ये विराजसे नळम् प्लवमारोहैतन् नळेन रथोऽन्मिः स त्वन्नळप्लवो भूत्वा सन्तरप्रतरोत्तर सवितैतानि शरीराणि पृथिव्यै मातुरुपस्था आदधे तेभ्यः पृथिवी सम्भव षड्ढो तासोर्यन्ते चक्षुर्गच्छतु वा तमात्माद्याम् च गच्छ पृथिवीम् च धर्मणा अपोवा गच्छगति अपो तत्प्रदेहित प्रतिनिष्ठा शरीरैः चक्षुष्मदे शृण्मदे तेब्रवीविमानः प्रजागुम्रीदृषो मोदभीरान् संवातश्च गृह्यते घृणः समुते सन्तोषधीः कल्पन्ताम् मे विषः शग्माः पृथिव्यास्त्वा लोके शर्मासि पितरो देवता प्रजापतिस्त्वा साधयतु अन्वरिक्षस्यत्वादिपस्त्वा दिशाम् त्वानागस्य त्वा पृष्ठे प्रघ्नस्य त्त्वा विष्टवे सादयाम् यमस्य शर्मासि पितरो देवता प्रजापतिस्त्वा साधयतु तया देवतया पापोपवान् घृतरागश्चरुरेहसी दतोत्तभ्रुवन् पृथिवीन्द्यामुतोपरि योनिकृतः प्रथिकृतः सपर्यतये देवानाम् घृतभागा इह स्थ येषा तेजमसादने स्वधा निधीयते गृहेषु दशाक्षरातागम् रक्षः स्वताङ्गोपायः स्वतान्ते परि ददामि तस्यान्त्वामादभन्पितरो देवता प्रजापतिस्त्वा सादयतु तजा देवतया अपोपवाङ्क्षतवान् क्षीरवान् दधिपान् मधुमागश्चरुरे हसीधतोत्तभ्रुवन् पृथिवीन्द्याभूतोपरि यो निकृतः पथिकृतः सपर्यतये देवानागम् श्रितभागाः क्षीरभागादधिभागा मधुभागा इह येषा तेजमसादने स्वधा निधीयते गृहेऽसु स्वसाक्षरासहस्राक्षरायुताक्षराच्युताक्षरादागम् रक्षस्वताङ्गोपायः स्वतान्ते परिदगामि तस्यान्तामादथन् पितलो देवता प्रजापतिस्त्वासादयतु तया देवतया एतास्ते स्वधामृदाः करोमि यास्ते धानाः परिगिराम्यत्र आस्ते जपः पितृभिः संविधानोऽधेनोः कामदुघाः करोतु त्वामर्जुनौषधीनाम् पयो ब्रह्माण यद्विदुः तासाम् त्वामध्या दूर्वाणागस्तम्बमाहरयिताम् प्रियतमाम् मम इमाम् दिशम् मनुष्याणाम् भोगिष्ठानुविरोहद काशानागस्तम्बमाह रक्षसामपहत्यै यहेदस्ते दिश पराभवन्नघायभो जातेना भवान् पुनः गर्भाणागस्तम्बमाहरवितृणामौषधीम् प्रियाम् अन्वस्यै मूलम् जेवादनुकाण्डमथोफलम् लोकं वृणता अस्य सो ददोहसः संवादश्च गम्भिते घृणः समुते सन्तोषधीः दे कल्पन्ताम् देतिषः सर्वाः इदमेवमेतोपरामार्तिमारामदाञ्चन तथा तदश्विभ्याम् मित्रेण वरुणेन च भरणो वारजादिरम् देवो वनस्पतिः आर्त्यै निर्वृत्त्यै द्वेषाच्च वनस्पतिः विधिरेरसि विधारयास्मदघाद्वेषागम्सि शमिशमयास्मदघाद्वेषागम्सि जवजवयास्मदघाद्वेषागम्सि पृथिवेम् गच्छान्तरिक्षम् गच्छ दिवम् गच्छदिशो गच्छसुवर्गच्छसुवर्गच्छदिशो गच्छ दिवम् गच्छान्तरिक्षम् गच्छयेम् गच्छापो वा गच्छगति तत्र ते हितमोषधेशप्रतिष्ठा शरीरैः अस्मन्वतेरेव ते यद्वै देवस्य स वितः पवित्रै्या राष्ट्रात्पन्नादुद्वयम् तमसस्परिधाता पुनात् आरोहता यर्जरसङ्क्रणाना अनुपूर्वतमाना यतिष्ठा यत्पष्टा सुजनिमासुरत्नो दीर्घमा युः यथा अन्यनुपूर्वम् भवन्ति यथर्तवरुतुभिर्यन्ति क्लृप्ताः यथा न पूर्वमपरोजः इत्येवधातरायोगुंशि कल्पयैषाम् नहिते अग्ने तनुभै क्रूरम् चकारमर्त्यः कविर्बभस्थिते जनम् पुनर्जराजगौरिव अपनः शोषितदघमग्नेशु शुद्ध्यारजम् शोषित स्वस्तये स इन्द्र इव देवेभ्यो वह्निः सम्पारणो भव इमे जैवाभिमृतैराववर्तिन्नभूद्भद्रादेवहो तिन्नो अद्य प्राञ्जोगामाधृतयेहसा यद्राघीज आयुः प्रतराङ्गधानाः मृत्योः पदै योपयन्तो यदैमद्राघीज आयुःप्रतराङ्गधानाः आप्यायमानाः प्रजयाधनेन शुद्धाः पूता भवधयज्ञया सह इमम् जीवेभ्यः परिभिन्दुधामिमानोऽनुगागपरो अर्धमेतन् शरज्जीवन्तु शरदः पुरोचे स्थिरो मृत्युम् दद्महे सर्पिषा सम्मृशन्ताम् अनश्रवो अनमेवा सुषेभा वा आरोहन्तु जनयो यो निमग्रे यदाञ्जनम् त्रैकगुदम् जातगम् हिमवतःपरि तेनावृतस्य मूले नारादीर्जम्भयामसि यथात्ममुद्धिरत्स्यौषधे पृथिव्या अधि एवमिम बुद्धिन्दन्तु कीर्त्या यशसा ब्रह्म अजोऽस्त्यजास्मदघाद्वेषादुंसि यवोऽसि यवयास्मदघाद्वेषागुंसि अपनश्वोऽशु च दघमग्नेशु शुद्ध्या रयिम् अपनः शोशु प्रयदग्नेः सहस्वतो विश्वतो यन्ति सूरजः अपनशोऽशु जदघम् प्रयत्ते अग्ने सूरजो चाये महि प्रतेभजम् अपनशोऽशु जदघम् त्वम् हि विश्वतो मुखविश्वतः परिभोरसि अपनशोऽशु जदघम् विषो नो विश्वतो मुखादिनामेव मुखा पारग अपनश्ोऽशुजदघम् स नः सिन्धुमिव नामजा स्वस्तये अपनशोशु च दघम् आपः प्रवणादिपयतीरपास्मत्स्यन्दतामघम् अपनशोशु च दघम् उद्वरादरा नैवापास्मत्स्यन्दतामघम् अपनशोशु च दघम् आनन्दाय प्रमोदाय पुनरागागस्वान् गृहान् अपनशोशु च दघम् न वेदत्र प्रमीयते गौरश्वः पुरुषः यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कमपनश्रोऽशु च दघाम् अपश्याम युवतिमाचरन्तीम् वृताय जीवाम् परिणीयमानाम् अन्धे न जातमसा प्रावृता स प्राचीमवाचीमवयन्नरिष्ट्यै मयेताम् माविस्ताम् भ्रियमाना देवी सती पितृलोके प्रयष्ठामग्निम् मधुमन्तमोर्मिणमार्जः सन्तन्तापयसोपसगम् सदेम सर्वम् रैयासमवर्तसा ये, ये जीवाये चमृताये जाताये जाताय च जन्त्या आह तेभ्यो घृतस्य धारयितुम् मधुधारा व्युन्धति माता रुद्राणान्दुहितावसू नागस्वसादित्यानामृतस्य नाभिः प्रणवोच्चिकितुषे जनाय मागामनागामदितिम्बधिष्ट पिबतो ततन्त्रिणान्यत्व ओमसृजत सन्तासम् च मिलिदुषा प्रजामाजुद्धनम् च ओम् शाम् तिःशाम् तिःशान्तिः सुमङ्गले रुजम् इमान्तमिन्द्रमेढ्वस्व पुत्राकुम् सुभगा अङ्कुरो दशास्याम् पुत्रानाथेः पतिमेकादशम् कृति आवहन्ते विदन्वाना कुर्वाणाचेरमात्मनः वासागुंसिमगावश्च अन्नपाने च सर्वदा ततो मे श्रिय तैत्र्य आरण्यः षष्टमः